मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं सेवन्टीन् आषाढशुक्लचतुर्थीचरितवर्णनं श्रीगणेशाय नमः दशरथ उवाच वदब्रह्मंश्च शुक्लाय आषाढे चरितं महद चतुर्थ्या नैव तृप्यामि कथां श्रुत्वा सुद्धिदां वसिष्ठ उवाच मैथिले विषये राजन्नगरं गण्डकीमहद तत्र राज्यं भद्रसेनश्चकारामिदतेजसा शस्त्रास्त्रनिपुणोऽत्यन्तं पराष्ट्रावमर्दनः जित्वा भूमण्डलं सर्वं समुद्रवलयाङ्गितं राज्यं चकारधर्मेण भूमिपा। भूमिप यज्वा विनीतकोमानी द्विजदेवातिथिप्रियः वशगा सर्वराजानः सेवन्ते स्मनराधिपम् अपारसेनया युक्तं करदायितरे तस्य राज्येषु काराजन् शलभा मूषकास्तथा अपारा भक्षयन्ति स्म धान्यं वस्त्रादिकम्बलाद तेषां नाशार्थमत्यन्तं भद्रसेनःप्रतापवान् अस्त्रायिर्यत्नपरो भूत्वा मारयामास तान् बहून् अग्न्यस्त्रेण समन्दात्तान् दग्धानपि च तादृशान् ददर्श पुनरुत्पन्नांस्तदो राजादिविस्मितः यत्र तत्र गृहान्तेषु चेरुस्ते शलभादयः अशक्तः सवने गत्वा बभूवः सुदुःखितः उपेक्षणपरो तप उत्तमम् शिवं स्मृत्वा चतुष्टा वा पूज्य रौद्रेण भावतः गते महायोगी भगदाल्भ्यः समाययौ तं देशं दैवयोगेन ददर्शासौ भ्रमन्नृपम् राजा तं पूजयामास संभोज्य नय पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा भद्रसेन उवाच स्वामिन् राज्ये मदीये वै मूषकाशलभाशुकाः अत्यन्तं पीडयन्ति स्म जनानां भक्षणेरदाः कृदा विप्राभवन् सर्वे सुनिष्फलाः राज्यं त्यक्त्वा वनेकं च संस्थितो दुःखकारणात् शङ्करं सम्भजंस्तत्र दर्शनं ते महामदे प्राप्तस्तपः प्रभावेण तत्रोपायं वद प्रभो वसिष्ठ उवाच भद्रसेन वच श्रुत्वा गणपत्यो महायशः जगाद भगदाल्भ्यः स तम्भूपम् हर्षयन्निव भगदाल्भ्य उवाच शिवेन प्रेषितोऽत्राकम् त्वदर्थम् राजसत्तम शृणु मे वाक्यं दुःखनाश्यकरं महद राज्ये ते भद्रसेनाद्यव्रतम् नष्टं बभूवः चतुर्थी संज्ञकं तेन विघ्नयुक्तोऽसि साम्प्रदं प्रजा सर्वे भयोद्विघ्ना जादादुष्टे नराधिपे राज्यकर्तरिरे नरके। गच्छ शिष्यतः सर्वादौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो चतुर्नां पुरुषार्थानां दायकं विघ्नहारकम् न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकं च दुःपदार्थहीनत्वाद्विचारय महामदे एवमुक्त्वा चतुर्ध्यायन्माहात्म्यं भगदाभ्यकः कथयामास राज्ञे वै हृत्वा भद्रसेन उवाच कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकं ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः भगदाल्भ्य उवाच पुरावृतमदीयं यच्चेष्टितं शृणुभूमिप तेन गणराजस्य ज्ञाने सुनिपुनो भवेहे। पुराकं तपसा युक्तो वायुमात्रा शनो भवम् चराचरम् तदोमत्तेजसा व्याप्तम् भयाधुरम् तथापि तपसा राजन् युक्तोऽहं तत्र मेद्भुतं बभूव विश्वरूपस्य दर्शनं सर्वगं परं तेनाहं ज्ञानभावेन संस्थितो योगकारणात् तपस्त्यक्त्वा विशेषेण जडोन्मत्ताधिकेरतः शमीतमपरो भूत्वा योगं पूर्णसुखप्रदम् असाधयं सदात्यन्तं मनो निग्रहतत्परः एवं क्रमेण भूपालसहजे सहजे ह्यहं ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा तदो मयादिमोहेन शून्यं स्वाधीनरूपकम् दृष्टं तेना भवं भ्रान्तो ब्रह्मणि त्वीदृशं कथं तदोखं शरणं शम्भुं गत्वा तं स्तुतवान् स्तवैः प्रसन्नं शङ्करं दृष्ट्वा वदं योगं वद प्रभो शिव उवाच सत्यासत्यसमानानि सहजेन युधानि वै निजात्मबोधतो विद्धिस्वानन्दादुद्भवानि च संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादधः अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः संयोगश्च तथा योगस्तयोर्योगो महामदे योगशान्तिप्रदप्रोक्तो योगिभिर्योगसेवया योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकं तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि संयोगश्च गकाराख्यो णकारो योगवाचकः तयोस्वामी गणाधीशः पश्य वेदे विशेषतः एवमुक्त्वा महादेवो ददौ मन्त्रं द्विजाय मे एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् प्रणम्य शङ्करं भूप गतोऽहं वनमेव अभजं गणराजं तं ध्यात्वा जपपरायणः तदस्तत्कृपया शान्तिर्मया प्राप्ता विशेषदः तथापि पूजने सकृतस्तं ध्यायामि स्म तदो ततो मां दर्शयामासरूपं शुण्ठा विराजितं दृष्ट्वा तं स्तौमि हर्षसमन्वितः भक्तिं दत्त्वा गणाधीशो ह्यन्दर्धानं चकारमे तदारभ्य महाभाग गणपत्योहमादराद एवमुक्त्वा ददौ तस्मै मन्त्रं पञ्चाक्षरं मुनिः अन्तर्धानं गणेशस्य सचकारद्विजोत्तमः चकारद्विजोत्तमः भगदाभ्यं गतं दृष्ट्वा राजाकर्षसमन्वितः चकार स्वपुरे राज्यं पुनरागत्य धर्मदः ततः स चकारव्रतमुत्तमम् आषाढे शुक्लपक्षे वै चतुर्धीजं शुभकृदः ततः सर्वत्र तेनैव प्रशस्तम् तद्व्रतम् कृदम् शुक्लकृष्णचदुर्धीजं व्रतं चक्रुर्जना नृप शुकाश्च मूषकास्तत्र शलभा नाशमाययुः धनधान्ययुधा लोकाः पुष्टिं लेभुः सुहर्षदः नानादुःखं परित्यज्यानन्दे नैव समावृताः अन्ते स्वानन्दगा सर्वे ब्रह्मभूता बभूविरे राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको यौवनं तत्र तं भजदानन्यभावदः अन्ते स्वानन्दगो भूत्वा शस्त्री गोज समुद्भव ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूवः अन्यशृणुचरित्रं तद्व्रतजं पुण्यवर्धजम् आशाडे वरदायाश्च भुक्तिमुक्तिफलप्रदम् भङ्गदेशे समुत्पन्नो वाणिजः स्वधर्मं सपरित्यज्य दुष्टकर्मरथो भवद द्यूतमद्याधिकं नित्यं हिंसया सेवदान्वितः बला धृत्वा भुङ्गपरस्त्रियं वशमनागताम् तस्य कर्मदुराचारम् ज्ञात्वा पित्रा तिरस्कृतः असकृत्तेन स क्षुब्धो विषम् पित्रे ददौ कलः विषबाधासमायुक्तः सममार ददाह तं ततो मादरमागम्य धनं जग्राह वै शोका सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परं तस्य दुष्टस्य ते तत्र व्यथितासं बभूविरे जना नृपं गत्वा कथयं तद्विशेषतः चेष्टितं क्षुभिदो राजा श्रुत्वा तं तत्र चानयद शूले नृपनरैः प्रोदो दुर्मदिस्स नृपाज्ञया तद्दिने देवयोगेना षाढी शुक्ला बभूवः तत्रायं जलहीनश्च निराहारस्थितो भवद पञ्चम्यां पीडया युक्तो ममारनृपदुष्टधीः अज्ञानव्रतपुण्येन स भवद महापापी व्रतस्यैव प्रभावेण महीपदे स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूवः एवं व्रतप्रभावेण जना ब्रह्मप्रलेभिरे तत्रैवं कदि सङ्ख्यातुं शक्यतेन न कदाचन वर्षायुधैर्महाराजाकिलं केनापि योगिनां यदि ज्ञानेन सादेवी देवी चतुर्थी साधिता भवेद वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेद इदमाषाढायाश्च चतुर्ध्याश्चरितं पठेद् शृणुयाद् वरदायाश्चेत् सलेभे दीप्सितं फलम् ओं तत्सति दिश्रीमदाध्ये पुराणोपनिषदिश्रीम उद्दे महापुराणे चुर्थे खंडे गजानन चि आषाढ़ुक्लची चरतवर्णन नाम सप्तशोध्याय ओं